बृहदारण्य उपनिषत् अध्यायं फोर् ब्राह्मणं फोर् ओ स यत्रायमात्मा बल्यन्येत्य सम्मोखमिव धैनमे देप्राणा अभिसमायन्ति स येदास्तेजो मात्रा समभ्याददानो हृदयमेवान्वक्रामधि सयत्रैष चाक्षुषः पुरुषः परां पर्यावर्तते धारूपज्ञो भवति येकी भवदिन पश्यदीत्याहुरेगी भवदिन जिघ्रदित्याहुरेगी भवदिन रसयद इत्याहुरेगी भवदिन वददित्याहुरेगी भवदिन शृणोदीत्याहुरेगी भवदिन मनुद इत्याहुरेगी भवदिनस्पृशदीत्याहुरेगी भवदिन विजानादीत्याहुस्तस्य हैतस्य हृदयस्याग्रं प्रद्योतदे तेन प्रद्यादेनैष आत्मा निष्क्रामदि चक्षुष्ठो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामं प्राणोऽनूत्क्रामिति प्राणमनूत्क्रा मन्दगं सर्वे प्राणा अनूत्क्रामन्ति सविज्ञानो भवति सविज्ञानमेवान्वक्रामदितं विद्याकर्मणि समन्वारभेदे पूर्वप्रज्ञा तद्यथा तृणजलायुगात् तृणस्यान्दं गत्वान्यमाक्रममाक्रम्यात्मानमुपसगं हरत्येवमेवाय मात्मेदगुं शरीरन्निहत्या विद्यां गमयित्वान्यमाक्रममाक्रम्यात्मानमुपसगं हरति तद्यथा पेशस्कारी पेषसो मात्राम पादायान्यन्नन्नवतरं कल्याणतरगुं रूपं तनुदयेवमेवाय मात्मेदगुं शरीरन्निहत्या विद्यां गमयित्वान्यन्नवतरं कल्याणतरगुं रूपं गुरुदे पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानां स वा अयमात्मा ब्रह्मविज्ञानमयो मनोमयप्राणमयश्चक्षुर्मय श्रोत्रमयपृथिवीमय आपोमयो वायुमय आकाशं मयस्तेजोमयो तेजोमय काममयो काममयक्रोधमयो क्रोधमयो धर्ममयो धर्ममयः सर्वमयस्तद्यते तदिदं मयो दोमय इदि यथा कार्यथाचारी तदा भवति साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन अधो खल्वाहुः काममयये वायं पुरुष इति स यथा कामो भवति तक्रदुर्भवति यत्क्रदुर्भवति तत्कर्म गुरुदे यत्कर्मगुरुदे तदभिसम्पद्यते तदेष श्लोको भवति तदेव सकृसहकर्मण इति लिङ्गं मनो यत्र निःशक्तमस्य प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् तस्माल्लोकात् पुनरैत्यस्मै लोकाय कर्मण इति नु कामय मानोथा कामय मानो यो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव तन् ब्रह्माप्येति श्लोको भवति यदा सर्वे प्रमुच्यन्ते कामा यस्य हृदि श्रुताः अधमर्त्यो मृदो भवत्यत्र ब्रह्म समश्नुत इति तद्यथाहि निर्लयनी वल्मीके मृदा प्रत्यस्तशयितैव मे वेदगुं शरीरगुं शेदेधायमशरीरो मृद प्राणो ब्रह्मैव ते जेवसोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः सदेते श्लोका भवन्ति अनुस्पन्था विततः पुराणो मागस्पृष्टोऽनुवित्तो मयैव तेनधीरा धीरा अपि यन्दिग्ब्रह्मविदस्वर्गल्लोकमिद ऊर्ध्वं विमुक्ताः तस्मिन् शुक्लमुदनीलमाहु पिङ्गलगुं हरितल्लोकितं च एष पन्था ब्रह्मणाः अनुवित्तस्ते नैधि ब्रह्मवित् पुण्यकृत्तैजसश्च अन्धन्तमप्रविशन्ति ये विद्यामुपासते तदोभूय इवदेतमोय उविद्यायागुं रताः अनन्दानामदेलोका अन्धेन तमसावृताः तागुस्ते प्रेत्याभिगच्छन्त्य विद्वागुं सोबुधो जनाः आत्मानं चेद्विजानीया दयमस्मीति पुरुषः किमिच्छन् कस्य कामाय शरीरमनुसञ्ज्वरेत् यस्यानुवित्तप्रतिबुद्ध आत्मास्मिन् सन्देह्ये गहने प्रविष्टः स विश्वकृत् हि सर्वस्य कर्ता तस्य लोकस उ लोक एव इहैव सन्दोध विद्मस्तद्वयं न चेदवेधिर्महदि ये तद्विदुरमृतास्ते भवन्त्यधेतरे दुःखमेवापि यन्ति यदैदमनुपश्यत्यात्मानन्देवमञ्जसा ईशानं भूदमव्यस्य न ततो विजुगुप्सते यस्मादर्वाक्संवत्सरो होभिः परिवर्तते तदेव ज्योतिषान् ज्योतिरायुर्हो वा सदे यस्मिन् पञ्च पञ्च प्रतिष्ठितः तमेव मन्य आत्मानं विद्वान् ब्रह्मा मृतो प्राणस्य प्राणमुद चक्षुषश्चक्षुरुश्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः ते निचिक्युर्ब्रह्मपुराणमग्र्यं मनसैवानुद्रष्टव्येहनास्ति किञ्चन मृत्यो स मृत्युमाप्नोति य इह नानेव पश्यति एकधैवानुद्रष्टव्यमेदप्रमयन्ध्रुवम् विरजः पर आकाशादज आत्मा महान्ध्रुवः तमेव धीरो विज्ञाय प्रज्ञां कुर्वीदब्राह्मणः नानुध्यायाद् बहोच्छब्दान्वाजो विक्लापनगुंहि तदिति स वा येष न च आत्मा योऽयं विज्ञानमयप्राणेषु ययेषोन्दर्हृदय आकाशस्तस्मिन् चेदे सर्वस्य वशी सर्वस्येषा नः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो ये वा साधुना कनीयानेष सर्वेश्वर येश भूताधिपदिरेश भूतपाल एष से दुर्विधरण एषा लोकानाम सम्भेदायतमेदं वेदानु वचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकेनैदमेव विदित्वा मुनिर्भवत्येदमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्त्ये तद्धस्म तत वै तत्पूर्वे विद्वागं सः प्रजान्न किं प्रजय करिष्यामो एष नोऽयमात्मा यल्लोक इति दे कस्म लोकैषणायाश्च व्युद्धा यादभिक्षाचर्यं चरन्ति याह्येव पित्तैर्षणा या वित्तैर्षणा सा लोकैर्षणोऽभ्येष्येदे येषणे एव ये भवतः स येषत्मा गृह्यो नहि गृह्येदे शिर्यो नहि सिर्यते सङ्गो नहि सज्यते सिदो नव्यदेन ऋष्यत्येदमुहै वैदेन तरद इत्यधः पापमकरव मिथ्यधकल्याणमकरवमित्युभे उहै वैश येदे तरदिनैनं कृता कृते तपतः तदेतदृजाभ्युक्तम् यश महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान् तस्यैव स्यात् पदवित्तं विदित्वा न लिप्यते कर्मणा पापगेनेति तस्मादेवं विच्छान्तो दान्त उपरतस्तिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति सर्वमात्मानं पश्यति नैनं पाप्मातरधि सर्वं पाप्मानन्तरदि नैनं पाप्मातपदि सर्वं पाप्मानन्तपदि विपापो विरजो विचिकित्सो ब्राह्मणो भवत्येष ब्रह्मलोकः ोवाच याज्ञवल्क्य सोऽहं भगवदे विदेहान्तदामिमाञ्चापि सह दास्यायेति सवायशमः नज आत्मानादो वसुदानो विन्ददे वसुय एवं वेद स एष महानज आत्माजरो मरो मृदो भयो ब्रह्म भयं वै ब्रह्मा भयगुं हि वै ब्रह्म भवदीय एवं वेद इति चतुर्धोऽध्याये चदुर्धं ब्राह्मणम् ओम। बृहदारण्य उपनिषत् अध्यायं फोर् ब्राह्मणं फैव् ओ अधः याज्ञवल्क्यस्य द्वे भार्ये बभूवधुर्मैत्रेयी च कात्यायनी च तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूवस्त्री प्रज्ञैव तर्हि कात्यायन्यथ हयाज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन् मैत्रेयीदिहोवाच याज्ञवल्क्यः प्रव्रजिष्यन्वा अरेहमस्मात् स्थानादस्मिहन्ततेन या कात्यायन्यान्तं करवाणीति साखो साहोवाचमैत्रेयी यन्नुमयियं भगोत्सर्वा पृथिवीवित्तेन पूर्णा स्यात्स्यान्वहन्तेना मृदा हो नेदिनेदिहोवाच याज्ञवल्क्यो यथैवोपकरणपदाञ्जीवितं तथैव दे जीवितग् स्यादमृतत्वस्य तु नाशास्ति वित्तेनेति साहोवाच मैत्रेयी येनाहन्नामृतास्यां किमहं तेन कुर्याय्य देव भगवान्वेद तदेव मे ब्रूहीति सहोवाच याज्ञवल्क्यप्रिया वै खलु नो भवति सदि प्रियमवृद्धन्ततर्हि भवत्ये दद्व्याख्यास्यामि ते व्याचक्षाणस्य तु मे अरे पत्युक्कामाय पथि भवत्यात्मनस्तु काम पदी प्रिदी अरे जाय काम जाया प्रिवतियात्मनस्त काम जाया प्रिवदिन अरे पुत्राण का प्रिया भवत्यात्मनस्तु आत्मनस्तु का प्रिया नवा अरे विस का काम य वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवदिन वा अरे पशूनां कामाय पशवः प्रिया भवन्त्यात्मनस्तु कामाय पशवः प्रिया भवन्ति न वा अरे ब्रह्मणकामाय ब्रह्मप्रियं भवत्यात्मनस्तु कामाय ब्रह्मप्रियं भवदिन वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवदिन अरे लोकानां कामाय लोकाप्रिया भवन्त्यात्मनस्तु कामाय लोकाप्रिया भवन्तिनव अरे देवानां कामाय देवाप्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति अरे वेदानां कामाय वेदा प्रिया भवन्त्यात्मनस्तु कामाय प्रिया भवन्तिन वा अरे भूदानाकामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय प्रयाणि भवन्ति अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा अरे द्रष्टव्य श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनि खल्वरे तिष्ठे श्रुते मदे विज्ञाद इदघुं सर्वं विदिदम् ब्रह्मदं परा दाद्योऽन्यत्रात्मनो ब्रह्मवेदक्षत्रन्तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेदलोकास्तम् परा दुर्योऽन्यत्रात्मनो लोकान्वेददेवास्तं परा दुर्योऽन्यत्रात्मनो देवान्वेदवेदास्तं परा दुर्योऽन्यत्रात्मनो वेदान्वेद भूतानि तं परा दुर्योन्यत्रात्मनो भूतानि वेद सर्वन्तं परा दाद्योऽन्यत्रात्मनः सर्वं वेदेतम् ब्रह्मे दं क्षत्रमिमे लोका इमे देवा इमे वेदा इमानि सर्वय भूतानी दगुं सर्वयदयमात्मा स यथा दुन्धुभिर्हन्यमानस्य न बाह्याञ्चब्दाञ्चक्नुयाद्ग्रहणाय दुन्दुभ्येस्तु ग्रहणेन दुन्दु दु वा शब्दो गृहीतः स शङ्खस्य धमायमानस्य न शब्दान् चक्नुयात् ग्रहणाय शङ्खस्य दुग्रहणेन शङ्खधमस्य वा शब्दो गृहीतः स यथा वीणायै वाद्यमानायै न बाह्याञ्चब्दाञ्चक्नुयाद्ग्रहणाय वीणायै वीणावादस्य वा शब्दो गृहीतः सयथार्द्रथाग्नेरभ्याखिदस्य पृथग्धूमा विनिश्चरन्त्येवं वा हरेस्य महधो निश्वसितमे निःश्वसित मे तद्यदृग्वेदो यजुर्वेदः सामवेदो धर्वाङ्गिरस इतिहासपुराणं विद्या उपनिषदश्लोकासूत्राण्यनुव्याख्या नानिव्याख्या नानीष्ठगुम् हुद माषिदं पायिदमयं च लोकपरश्च लोकसर्वाणि च भूधान्यस्यैव इदानि सर्वाणि निःश्वसितानि स यथा सर्वास्सामपागं समुद्र एकायनमेव सर्वे हाग्स्पर्शानां कायनमेव गुं सर्वेषां गन्धानां नासिकैकायनमेव गुं सर्वेषा गं रसानां जिह्वैकायनमेव गुं सर्वेषा गं रोपाणाञ्चक्षुरेकायन मे वं सर्वेषा गं शब्दानाग् श्रोत्रमेकायनं मे सङ्कल्पानां मन एकायनमेव गुं सर्वासां विद्यानागुं हृदयमेकायनमेव गुं सर्वेषां कर्मणा गुंहस्तावेकायनमेव गुं सर्वेषामानन्दानामुपस्तकायनमेव गुं सर्वेषां विसर्गाणां पायुरेकायनमेवगुं सर्वेषा पादावे पादावेकायनमेवगुं सर्वेषां वेदानां वागेकायनम् स यथा सैन्तव खनो नन्दरो बाह्यकृष्णो रसखनये वैवं वा अरे यमात्मानन्तरो बाह्यकृष्णप्रज्ञानखनये वैतेभ्यो भूदेभ्यः समुद्धाय तान्ये वा न विनश्यदिनप्रीत्य सास्तीत्यरे याज्ञवल्क्यः साहोवाचं मैत्रेय्यत्रैव मा भगवान् मोहान्दमापीपिपन्नवा अहमिमं विजानामीति सहोवाचन वा अरे त्वं मोहं ब्रवीम्यविनाशी वा अरे यमात्मानुच्छित्तिधर्मा यत्र हिद्वैदमिव भवति तदितर इदरं पश्यति तदितर इदरं जिघ्रदि तदितर इदरगं रसयदे तदिदर इदरमभिवदति तदितर इदरगं शृणोति तदिदर इदरं मनुदे तदितर इदरघ् स्पृशति तदितर इदरं विजानादि यत्र त्वस्य सर्वमात्मैव भूतत्केन कं पश्येत्तत्केन कञ्जिक्रेत् तत्केन कगुं कम रसयेत्तत्केन कमभिवदेतत्केन खगुं शृणुयात्तत्केन कं मन्वीद तत्केन कग्स्पृशेत् तत्केन कं दघुं सर्वं विजानादि तङ्केन विजानीयात्स येषत्मा गृह्यो नहि गृह्यदे शिर्यो नहि सिर्यदे सङ्गो नहि सज्जते सितो न व्यधदे नरिष्यदि विज्ञातारमरेके न विजानीयादित्युक्तानुशासनासि मैत्रेस्येदावदरे खल्वमृदत्वमिति होक्त्वा याज्ञवल्क्यो विजहार इति चतुर्थोऽध्याये पञ्चमं ब्राह्मणम् ओ बृहदारण्य उपनिषत् अध्यायं 4, ब्राह्मणं 6 ओ अथवगंसः पौधिमास्यो गौपवनाद्गौपवनः पौदिमास्यात् पौधिमास्यो कौशिकात् कौशिकः कौण्डिन्यात् कौण्डिन्यशाण्डिल्याश्चाण्डिल्यः कौशिकाच्च गौधमाश्च गौधमः आग्निवेश्यादाग्निवेश्यो गार्ग्याद्गार्घ्यो गार्घ्याद्गार्घ्यो गौधमात् गौधमः सैतवात्सैतवः पारा शर्यायणात् पारा शर्यायणो गाग्यायणात् गार्ग्यायन उद्धालकायन दुद्धालकायनो जबालायन जाबालायनो माध्यन्दिनायनान् सौकरायनात् सौकरायणः काशायनात् कायन सायकायना सायकायन कौशिकाय ने कौशिकाय घृद कौशिकात्द कौशिक पाराचरियाय पाराशर्यायण पाराचरिया जादो जादोकर्ण जाकर्ण्य जादो आसुरायणा चास्काचा सुरुरायणस्त्रणेस्त्रणीरऊप जन्धरेरऊप जनधनीरासुरी रासुरी भारद्वाजा भारद्वाज आत्रेया दात्रेयो मांडेर माण्डिर्गौधमात् गौतमो गौतमात् गौधमो वास्याद् वात्स्यण्डिल्या चाण्डिल्यकैशोर्यात् काम्यात् कैशोर्यकाप्य कुमारहारितात् कुमारहारितो गालवाद्गालवो विदर्भी कौण्डिन्याद्विदर्भी कौण्डिन्यो वत्सनपादो बाभ्रवाद्वत्सनपाद् बाभ्रवः पदस्सौभरात् पन्तासौभरो या स्यादाङ्गिरसाद स्य आङ्गिरस आभूदेस्त्वाष्ट्रादाभूदिस्त्वाष्ट्रो विश्वरूपात्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽभ्यामश्विनौ दधीज आधर्वणा दध्यङ्गाधर्वणो धर्वणो दैवा दधर्वा दैवो मृत्योप्राध्वगं सनान्मृत्युः प्राध्वगं सनप्रध्वगं सनात्प्रध्वगं सनयेघर्षेरेघर्षेर्विप्रचित्तेर्विप्रचित्तेर्व्यष्टेर्व्यष्टिस्सनारोः सनाः सनातनात् सनातनस्सनगात्सनगः परमेष्टि नः परमेष्टि ब्रह्मणो ब्रह्मस्वयं भुक् ब्रह्मणो नमः इति चतुर्धोऽध्याये षष्ठं ब्राह्मणम् इति चतुर्धोऽध्यायः ॐ